अथ सप्तत्रिंशोऽध्यायः सौदिरुवाच मातुः सकाशात्तम् शापम् श्रुत्वा वै पन्नगोत्तमः वासु किश्चिन्तयामास शापोऽयम् न भवेत्कथम् भ्रातृभिः सह सर्वसः ऐरावतः प्रभृतिभिः सर्वधर्मपरायणैः वासुकिरुवाच अयम् शापो यथोदिष्टो विदितम् वस्तथा नखाः तस्य शापस्य मोक्षार्थम् मन्त्रयित्वा यतामहे सर्वेषामेव शापानाम् प्रतिघातो हि विद्यते न तु मात्राभिसप्तानाम् मोक्षः क्वचन विद्यते अव्ययस्याप्रमेयस्य सत्यस्य च तथा सप्ता इत्येव मे श्रुत्वा जायते हृदिवे पथुः नूनम् सर्वविनाशोऽयमस्माकम् समुपागतः न ेवः सपन्तीम् प्रत्यषेधयत् तस्मात्सम्मन्त्रयामोऽद्य भुजङ्गानामनामयम् यथा भवेद्दि सर्वेषाम् मानःकालोद्यगादयम् सर्व एव बुद्धिमन्तो विचक्षणाः अपि मन्त्रयमाणा हि हेतुम् पश्याममोक्षणे यथा नष्टम् पुरादेव गुहागतम् यथा स यज्ञो न भवेत् यथा वापि पराभवः जनमेजयस्य सर्पाणाम् विनाशकरणाय वै सौतिरुवाच यथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः समयञ्चक्रिरे तत्र मन्त्रबुद्धिविसारदाः एके तत्राभुवन् एके तत्राब्रुवन्नागाः वयम् भूत्वा द्विजर्षभाः जनमेजयन्तु भिक्षामो यज्ञस्ते न भवेदिति तत्र पण्डितमानिनः मन्त्रिणोऽस्य वयम् सर्वे भविष्यामः सुसम्मताः सनः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् तत्र बुद्धिम् प्रदास्यामो यथा यज्ञो निवत्स्यति स नो बहुमतान् राजा बुद्ध्या बुद्धिमताम् वरः यज्ञार्थम् प्रक्ष्यति व्यक्तम् नेति वक्ष्यामहे वयम् दर्शयन्तो बहून् दोषान् प्रेत्य चेह च दारुणान् हेतुभिः कारणैश्चैव यथायज्ञो भवेन्न सह अथवाय उपाध्यायः क्रतोस्तस्य भविष्यति सर्पसत्रविधानज्ञः राजकार्यहितेर रतः तम् गत्वा दशताम् कश्चित् भुजङ्गः समरिष्यति तस्मिन्वृते यज्ञकारे क्रतुः स न भविष्यति ये चान्ये सर्पसत्रज्ञाः भविष्यन्त्यस्य च द्विजः तांश्च सर्वान् दसिष्यामः कृतमेवम् भविष्यति